सहदेव देव उवाच यज्ञविघ्नमिमं कर्तं नार्हस्त्वं हव्यवाहना एवमुक्त्वा तु माद्रेयः कुशैरास्तिर्यमेदिनीम् विधिवत् पुरुषव्याघ्रः पावकं प्रत्युपाविशत् प्रमुखे तस्य सैन्यस्या भीतोद्विघ्नस्य भारता न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः तमुपेत्यशनैर्वह्निरुवाच कुरु नन्दनं सह देवं नृणां देवम् सान्त्वपूर्वमिदं वचः उत्तिष्ठोत्तिष्ठकौरव्या जिज्ञासेयं कृता मया वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च मया तु रक्षितव्येयं यावद्राज्ञो हि नीलस्य कुलेवंशधरा इति ईप्सितं तु करिष्यामि मनसस्तव पाण्डवा तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः पूजयामसम्रेय पावकं भरतर्ष भावक विनृत् नीलो राजभ्य पाकया चनमर्चयामस पार्थिव सत्कारेण नरव्याघ्रह दें युध प्रतिगृह्य पूजाम् तां पूजाङ्करे च विनिवेश्य च माद्रीसुतस्ततः प्रायाद्विजयीदक्षिणां दिशम् त्रैपुरं सवशे कृत्वा जसं। निजग्राहमहाबाहुस्तरसा पौरवेश्वरम् आकृतिं कौशिकाचार्यं यत्नेन महता ततः वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा सुराष्ट्रविषयस्थश्च प्रेशयामासरुक्मिने। रुक्मिणे राज्ञे भोजकटस्थाय महामात्राय धीमते भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै